भागवत श्रीमद्भागवत महापुराण द संस्क अथ सप्तपचाशतमोध्या सत धन्व का उद्धार और अक्रूर जी को फिर से द्वारिका बुलाना श्रीशोकुवाच विज्ञाता गोविंदो दर्ण पांडवा कुं चुक सह रामो यु भीष्मं कृपं सविदुरं गान्धारीं द्रोणमेव च तुल्यदुःखौ च संगम्यहाकष्टमिति होचतुः नब्धैतदन्तरं राजन् सतधन्वानमोचतुः अक्रूरकृतवरमाडौ मणिकस्मान्न ग्रीयते योऽस्मभ्यं सम्प्रति श्रुत्य कन्यारत्नं विगर्ह्यन् कृष्णायादान्न सत्राजे कस्माद्ध्रातरमन्वियात् एवं भिन्नमतिस्ताभ्यां सत्राजिमसत्तमः सयानम् अवधिल्लोभास पापचीन जीवितः स्त्रीणां विक्रोशमानानां क्रन्दनीनामनार्थवत् हत्वा प्रशंसनिंसौनिकम् वन्मणिमादाय जग्मिवान् सत्यभामा च पितरं हतं यच्छ शुचार्पितां बलपत्तात्तातेतिहा हतास्मेतिमुह्यते तैलद्रोण्यामृतं प्रास्य जगाम गजसाह्वयं कृष्णाय विदितार्थाय तप्ता चभ्योऽपितुर्वधं तदा कर्णेश्वरौ राजन्ननुसृत्य निलोकताम् अहो न परमम् कष्टम् इत्यस्राक्षो विलेपतुः आगत्य भगवान् तस्मात् सभार्य पुरम् सतधन्वान् मारेभे हन्तुम् हरितुम् मणिं ततः सोऽपि कृष्णोद्यमम् ज्ञात्वा भीतप्राणपरीक्षयाम् सहाय्ये कृतवर्माणम् अयाचेत् स च नाहमीश्वर्यो कुर्यां धेलनं रामकृष्णयोः कोनुक्षेमाय कल्पेत तयो वृजनमाचरन् कंसहानुगोपीतो यद्वदेशात् त्याजित त्याजितश्रियां जरासन्द सप्तदस्य संयुगान् विरथो गतः प्रत्याख्यातः सचाक्रूरं शाष्टिग्राह मया सोऽप्याः को विरुध्येत विद्वानेश्वर्योर्बलम् य इदं लीलया विश्वं सृजत्यवतिहन्ति च तेषां विश्वसि जो यस्य न विदुर्मोहिता जयां यसप्ताहायिनशैलम् उत्पाट्यैकेन पाणिनां दधार लीलया बालम् उच्छेलिं ध्रम्य वार्भकः नमस्तस्मै भगवते कृष्णायाद्भुतकर्मणे अनन्तायादिभूताय कूटस्थायात्मने नमः प्रत्याख्यातशेदापि सदसन्वा महामणिं तस्मिन्नस्यासुमारुह्य सचयो जनगमजयौ गरुणध्वजमारुह्यर्थं रामजनार्जनौ अन्वया तां महावेगये अश्वैराजन् गुरुद्रुहं मिथिलायामुपने विसृज्य पतितं हयं पद्भ्याम् अवधां धावत् सन्त्रस्तः कृष्णोऽप्यन्वद्रवदृशां पदातेर्भगन्वास्तस्य पदाते तिङ्ममें मनेमिनां चक्रेण सिरुत्कृत्य वाससो विचिनोन्मलिम्